येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे नष्टदेवासुरनरे प्रणष्टोरगराक्षसे, रगराक्षसे योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैटभौ हतौ भगवता तेन तयोर्दत्त्वा वृतम् वरम् भूमिम् द्वौ महासुरौ कर्णस्रोतोद्भवौ तौ तु विष्णोस्तस्य महात्मनः महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ तौ विवेशः स्वयम् वायुः ब्रह्मणा साधुचोदितः तौ दिवम् छादयित्वा तु ववृघाते महासुरौ वायुप्राणौ तु तौ दृष्ट्वा ब्रह्मा पर्यामृषच्छनैः एकम् मृदुतरम् बुद्ध्वा कठिनम् बुद्ध्यचापरम् नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः